मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं ट्वेण्टि सेवेन् भाद्रपदकृष्णचतुर्थी माहात्म्यवर्णनं श्रीगणेशाय नमः दशरथ उवाच भाद्रकृष्णचतुर्थ्यास्त्वं माहात्म्यं वद भोमुने न तृप्यामि कथां शृण्वन् सर्वसिद्धिप्रदायिनीं वसिष्ठ उवाच द्राविडे राजशार्दूलो बभूव परमद्युधिः वीरसेनायशोयुक्तः सार्वभौमो महाबलः नीतिज्ञो नितियुक्तश्च चक्रे सौराज्यमुत्तमम् सर्वान् राज्ञो वशे कृत्वा करभारेण संयुधान् धर्मशीलसदानन्दं चा ददाद्भक्तिसंयुधः क्षुधितं न न न न न सुखकारकः पुत्रानिव प्रजा सर्वाः पालयामास यत्नदः अपुत्रो दैवयोगेन बभूव परवीरः पुत्रार्थं यत्नमत्यन्तं जप होमादिभिः सदा चकारतीर्थक्षेत्रादिविधाने तादृशोऽभवद एवं बहौ गदे पुत्रो नासीन्महीपदे ततोदि दुःखितो राजा राज्यं त्यक्त्वा ययौवनम् सस्त्रीकस्सवने राजा बभ्राम यत्र तत्र ह महावनं गत्वा पपादक्षुधयान्वितः सुमन्धुस्तत्र विप्रर्शि समिदर्थं समाययौ नृपं दृष्ट्वा दयायुक्त आयहौ तं निरीक्षितुम् वेदवेदाङ्गवित्साक्षात् सर्वशास्त्रप्रवर्तकः पुराणज्ञो महायोगीव्यासशिष्यप्रदापवान् तं दृष्ट्वा सहसोद्धाय प्रणनाम महामुनिं वीरसेनप्रहर्षेण शस्त्रैकसंयुधो नृपः करसम्पुडमुद्धाय पुरकृत्वा महामुनेहे तं जगाद विशेषज्ञं राजा वचनमुत्तमं वीरसेन उवाच धन्यं मे कर्मजन्मादिपिदामादाकुलं यशः विद्याव्रताधिकं सर्वं त्वदङ्घ्रियुगदर्शनाद राज्यं त्यक्त्वा वने संस्थपुत्रार्थं पापवानहम् तत्रत्ये दर्शनं प्राप्तं पूर्वपुण्यफलोदयाद नानायत्नेन विप्रेष पुत्रो मे नाभवत् किल त्वत्कृपोपायमेकं च पश्यामि सुखदायकं वसिष्ठ उवाच एवं तस्य नृपस्यासौ श्रुत्वा वचनमुत्तमम् सन्धुष्टस्तं जगादेदं सुमन्दुर्मुनिसत्तमः सुमन्दुरुवाच मा चिन्तां गुरुराजेन्द्रपुत्रस्ते कुलतारकः भविष्यदि न सन्तेह शृणु मे वचनं हितं राज्ये नष्टं त्वदीये तच्चतुर्धीजं व्रतम् अखद तेन त्वं पुत्रहीनोऽसि नृपाधमनबुध्यसे सर्वादौ तद्व्रतं मुख्यं कर्तव्यं सर्वसिद्धितं, चतुःपदार्थदं सर्वैर्नो चेत् सर्वं सुनिष्फलं त्वया कर्मकृतं कृतं नानापुण्यदं सर्वसंमतं, चतुर्भि पुरुषार्थैहीनं चतुर्धि एवमुक्त्वा नृपायाध माहात्म्यं व्रतजं महद श्रावयामास तं सोऽपि श्रुत्वा पप्रच्छभाविकः वीरसेन उवाच वदब्रह्मन् गणेशस्य ज्ञानं यस्य चतुःप्रदं सर्वादि सर्वादिसम्मान्यम् तं भजिष्यामि नित्यदा सुमन्दुरुवाच गणेशस्य स्वरूपं यद्वक्तुं शक्तो भवेत्तु कः उपाधिसंयुतं ज्ञानं शृणुराजेन्द्र सर्वदम् अहं तपःप्रभावेण पुरा जादो विशेषतः शापानुग्रहणे राजन् समर्थः सर्वमण्डले ततोदितपसा युक्तो भवं तेन महामदे अन्तर्ज्ञानं समुत्पन्नं सदृष्ट्वा दृष्ट्वा विस्मितो ह्यहं ततो जडाधिका नानाभूमिका साधयं स्त नानाब्रह्मविभेदेषु संस्थितो ब्रह्मधारकः येवं क्रमेण राजेन्द्र आसं स्वानन्दगो भवन् तत्र शान्तिसुखे सक्तो ब्रह्म भूतस्वभावतः तस्माद्भेदमयं द्वन्द्वं दृष्ट्वा चान्दो महामुनिं व्यासं गत्वा प्रणम्यैव पृच्छं तं स्वहितप्रदं ब्रह्मभूतस्वरूपां वदशान्तिं महामुने शिष्योऽहं ते महाभाग तारयस्व भवार्णवाद यदि पृष्ठो महायोगी मामु वाचप्रदर्षितः तप्तेऽहं कथयिष्यामि गणेशज्ञानकारकं व्यास उवाच पुत्र प्रवक्ष्यामि ब्रह्मभूतस्वरूपकं शान्तिनां शान्तिरूपं तं ज्ञातव्यं योगसेवया स्वद उद्धानकं ब्रह्म उद्धानं परतस्तथा तयोरभेदभावे चह्य सत् स्वानन्द उच्यते तत्रामृदमयं यत्तत्सद्रूपं स्वस्वरूपकं तयोरभेदभावे स्वानन्द उच्यते त्रिभिर्हीनं त्रिभिर्युक्तमव्यक्तं ब्रह्म कथ्यते चतुर्नामेव संयोगे स्वानन्दो ब्रह्म उच्यते पञ्चभिर्गतिहीनं यन्मदं चायोगवाचकं न तत्र कस्यचिद्योगस्ततः कुत्रापि पुत्रक संयोगयोगयोर्योगे योगः शान्तिप्रदायकः स एव गणराज्यश्च ज्ञातव्यो विबुधैः सदा गणास्समूहरूपाश्चान्तरबाह्यादियोगदः अन्नादिब्रह्मरूपास्ते ज्ञातव्या योगसेवया तेषां स्वामी गणेशानस्तम्भजस्वविधानदः तदा त्वं ब्रह्मभूतश्च भविष्यसि न चित्तं पञ्चविधं प्रोक्तं तदेव बुद्धिवाचकं चित्तं मोहस्वरूपं यत्सिद्धिरूपं वदन्ति च स्वामी गणाधीशो मायाभ्यां क्रीडति प्रभुः पञ्चचित्तनिरोधेन लभ्यते चित्तधारकः अधश्चिन्तामणि प्रोक्तो पश्य वेदेषु पुत्रक चित्तं त्यक्त्वा समोकं त्वं भव चिन्तामणिस्ततः यवमुक्त्वा ददौ मह्यं मन्त्रमेकाक्षरं प्रभुः सविधिं तं प्रणम्यैव गदोऽहं स्वाश्रमे पुनः ध्यात्वा गणपतिं राजन्मन्त्रे जप परो भवं ततः स्वल्पेन कालेन तथापि गणराजं त्वपूजयन्तं विशेषतः ततो मे दर्शयामास स्वात्मानं विघ्नपःप्रभुः समागतं गणेशानां दृष्ट्वा विस्मितमानसः अपूजयं प्रहर्षेण तं प्रणम्य पुनः पुनः अधर्वोपनिषद्भिः स संस्तुतो गणनायकः भक्तिं दत्वा स्वकीयं मेन्दर्धानं प्रचकारः पदादिगणपत्योऽगं प्रभजे नित्यमादराद तं भजस्व महाराज तदसर्वं शुभं भवेद एवमुक्त्वा ददौ तस्मै समन्द्रं षोडजाक्षरं सविधिं मुनिमुख्य सोन्दर्धानमगमत्तदः राजादिविस्मितो भूत्वा सपत्नीकः प्रणम्य तं स्वपुरे समागत्या भज गणनायकं तत्रादौ भाद्रमासे सा प्राप्ता चतुर्थिका कृता तेन जनैः सर्वैः पुरवासिभिरादराद विशेषतस्ततस्तेन प्रशस्तं तत् व्रतं कृतं शुक्लकृष्णचतुर्धीजं चक्रुः सर्वे धरातले व्रतपुण्यप्रभावेण राजा पुत्र पुत्रसमन्वितः बभूवू रोगकीनास्ते भूमिपैवं जनास्तथा पुत्रे राज्यं परित्यज्य राजा निर्वृत्तिसंयुतः सपत्नीको गणेशानमभजन्नित्यमादराद अंदे। गणेशलोके स गत्वा ब्रह्ममयो भवद क्रमेण सर्वलोकाश्च ब्रह्मभूता बभूविरे यदत्ते कथिदम्भूपमाहात्म्यं संगडीभवं अन्यच्छृणु चतुर्ध्यास्त्वं पापघ्नं सर्वदम् परम् आन्ध्रेजधिवरः कश्चिद्बभूवे सर्वहिंसकः पाप कर्म बाल्यादमरायण वृथा साक्ष्यपो भूवा कलहम सोक लोकाना लोभशील्चर्यद्रव्यम सहरद समाहरद वनेगत्वा मगस्था प्रजगान वै ब्राह्मणादिन्विशेषेण नानापापरायणः न तस्य कर्म वैशक्यदे वै शक्यते पापभीदिदः ग्रन्थबाहुल्यदो भूप परस्त्री भाद्र कृष्ण भाद्रकृष्णचतुर्धीजे वनमध्यस्थ एकदा व्रदे प्राप्ते महापापी निराहारो बभूवः अकस्मात्तत्र सम्प्राप्तो जनसङ्घो महान् नृप भयात्तस्य प्रलीनोऽभूत् गुहायां धीवरसदु किञ्चिद्दिनावशेषे स जनसङ्घो गदोऽभवत् तदा बहिर्विनिसृत्य गृहे गन्तुं मनोदधे। न तेन दुष्टेन किञ्चित्तदपि दारुणः स्वात्मन्यास्ताय धैर्यं स मार्गसंस्थो बभूवः रात्रौ समागतो दुष्टः स्वगृहे सुदै सार्धं भोजनं स चकारः पञ्चम्याम् सर्पदंशेन मृदःपापेन निश्चयः गणराजस्य तदपि दूता नेदुं समागमन् गृहीत्वा धीवरं ते युर्गणा पुरे गणेशानं सदम् ब्रह्मभूदो ब्रह्मभूतो बभूवः व्रतेनाज्ञानजेनायं विधिहीनेन भूमिप ब्रह्मभूतो धीवरश्च सम्बभूव वदामि किं एवं नानाजनराजन् ब्रह्मभूदा बभूविरे चतुर्ध्या व्रतपुण्येन वक्तुं नैव प्रशक्यते इदं भाद्रपदे कृष्णचतुर्धीजं शृणोधि यः माहात्म्यं वापि पठति स ईप्सितमवाप्नुयाद ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते भाद्रपदकृष्णचतुर्थी माहात्म्यवर्णनं नाम सप्त्याय